श्रीमद्भागवत्महापुराणं महात्म्यं प्रथमोऽध्यायः रहस्यं तिदमेतस्य प्रकृते परमुच्यते प्रकृत्याखेलतस्तस्य लीलान्यैरनुभूयते सर्गस्थित्यप्ययायत्र रजसत्त्वतपोगुणैः लीलैवं द्विविधा तस्य वास्तवी व्यावहारिकी वास्तवी तस्वं संवेद्या जीवनां व्यावहारिकी आद्यां विना द्वितीया न द्वितीयानाद्यगाकृते युवयोर्गोचरेऽन्तु तल्लीला व्यावहारिकी यत्र भूरादयो लोका भुवि अत्रैव व्रजभूमि सा यत्र तत्त्वं सुगोपितं भासते प्रेमपूर्णानां कदाचिदपि सर्वतः कदाचिद्वापरस्यान्ते रहो लीलाधिकारिणः समवेता यदा तस्योर्यथेदानीं तदा हरिः स्वै स हावतरे स्वेयुः समावेशात्समीप्सिताः तदा देवादयोऽप्यन्त्येवतरन्ति समन्ततः सर्वेषां वाञ्छितं कृत्वा हरिरन्तर्हितोऽभवत् तेनाद्र तिविधा लोकासिता पर्वं न संशयः नित्यास्तल्लिप्सं वश्चैव देवाद्याश्चेति भेदतः देवाद्यास्तेषु कृष्णेन द्वारकां प्रापिता पुरा पुनर्मौसलमार्गेण श्वाधिकारेषु चापिताः तल्लिप्सोस्य सदा कृष्णप्रेमानन्दैकरूपिणः विधाय स्वीयनित्येषु समावेशितवान् सदा नित्या सर्वेऽपि योग्येषु दर्शनाभावतां गताः व्यवहारिकी लीलास्तास्तत्र यन्नाधिकारिण पश्यन्त्यत्रागतास्तस्मान् निर्जनत्वं शमन्ततः तस्माच्चिन्तान ते कार्या वज्रनाभमदाज्ञया वासयात्रा बहून् ग्रामान् संसिद्धिस्ते भविष्यति कृष्णलीलानुसारेण कृत्वा नामानि सर्वतः त्वया वासे ता ग्रामान् संसेव्य पूरीयं पराम् गोवर्धने दीर्घपुरे मथुरायां महाबले नन्दिग्रामे बृहत्सानौ कार्याराज्य स्थितिस्त्वया नन्द्यद्रिद्रोणीकुण्डादिकुञ्जान् संसेवतस्तव राज्ये प्रजासु सम्पन्नास्त्वं च प्रीतो भविष्यसि सच्चिदानन्दभूरेशा त्वया सेव्या प्रयत्नतः तव कृष्णस्थलान्यत्र स्फुरन्तु ततो रहस्यमेतस्माद्राव्यसे त्वं समातृकः एवमुक्त्वा तु साण्डिल्यो गतकृष्णमनुस्मरन् विष्णुरातोऽथ भद्रश्च परां प्रीतिमवापतुः इति श्रीस्कन् स्कन्दे महापुराण एकाशीतिसाहस्रायाम् संहितायाम् द्वितीये वैष्णवखण्डे श्रीमद्भागवतमहात्म्ये शाण्डिल्योपदिव्रज भूमिमहात्म्यवर्णनं नाम प्रशमोऽध्यायः